श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध अथ द्वादशोऽध्यायः रघुगण का प्रश्न और भरद्जी का समाधानम् रघुगण उवाच नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय नमोवधूतद्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यं जरामयार्थस्य यथागतं सन् निदाघदग्धस्य अन्यथा हिमाम्भ कुदेहमानाहि विदष्टे ब्रह्मन्वचस्ते मृदुमोऽषधं मे तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम् अध्यात्मयोगग्रथितं तवोक्तम् आख्याहि कौतूहलचेतसो मे यदा हि योगेश्वरदृश्यमानं क्रियाफलं सद्व्यवहारमूलं न झञ्जसा तत्त्वविमर्शनाय भवानुमस्मिन् भ्रमते मनो मे ब्राह्मण उवाच अयं जनो नाम चलन् पृथिव्यां य प्रार्थिव प्रार्थिव कस्य हेतोः अंसेधि दार्भिकाच यस्यां सौवीरराजेत्यपदेशास्ते यस्मिन् भवान् रूढनिजाभिमानो रजात्मि सिन्धोऽस्विति दुर्मदान्ध शोचानि मा त्वम् अधिकष्टदि दीनान्दिष्ट्यानि गृह्ण्या निरगुन्नुग्रहोऽसि धनस्य गुप्तास्मि विकथमालो न शोभसे यदा चितावेवचराचरस्य विधामनिष्टां प्रभुवं च नित्यं तन्नामतोऽन्नतं व्यवहारमूलं निरूप्यतां सन्नियानुमेयम् एवं निरुक्तं स्थितिशब्दवृत्तं सन्निधानान्तरमाणवो ये अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेष एवं कृशं स्थूलमलुं बृहद्यत असस्यसञ्जीं जीवमन्यत दव्यस्वभावाशयकालकर्म नाम्ना जया वेहि कृतं द्वितीयं ज्ञानं विशिद्धं परमार्थमेकम् अनन्तरं त्वं दहि ब्रह्मसत्यं प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं वदन्ति रघुगणैं तत्तपसान याति न चेदयानिर्वपणाद्गृहाद्वां न शन्दसानैव जलाग्ने सूर्यैर्विना महत्पादरजोऽभिषेकं यत्तोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः निषेव्यमाणोऽनुदिनं मुक्षोर्मतिं सतिं यजति वासुदेवे अहं पुरा भरतो राम राजा मे मुक्तनिष्टसङ्गबन्ध आराधनं भगवत इह मालो मृगो भवं मृगसङ्गाद्धतार्थः तामां स्थितिर्मृगं देहेऽपि वीर कृष्णार्चनप्रभवानो जहाति अथो अहं अथोहं संगो विशङ्कमालो विवितश्चमि तस्मान्नरो सङ्गस सङ्गजातज्ञानाशिनेहैव विविक्रमोहरिं तदेहाकसनस्रुताभ्यां लध्वस्मृतिर्यान्त्यति पारमध्वरः इति मद्भागते महापुराणे प्रंजां चैतायां पञ्चमस्कन्दे ब्राह्मणरहुगणसंवादे द्वादशोऽध्यायः